विंसोऽध्यायः वासुदेव उवाच पतितौ हंसडिम्भकौ कंसश्च सगणो हतः जरासन्धस्य निधने कालोऽयं समुपागतः न शक्योऽसौरणे जेतुं सर्वैरपि सुरासुरैः बाहुयुद्धेन जेतव्यः स पलभामहे। मयिनीतिर्बल भीमे रक्षिता चावर्जय माधयिष्यामित्रिरासादीस्माजने मा स नदेहो युद्ध मेंुपा अवमान लोभाच्च्च बाहुवीरिया दर्ता भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति अलं तस्य महाबाहुर्भीमसेनो महाबलः लोकस्य समुदीर्णस्य निधनायान्तको यथा यदि मे हृदयं वेत्सि यदि ते प्रत्ययो मयि भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ वैशंपयन उवाच एवक्त भगवता प्रत्युवाच युधिष्ठि भीमार्जुनौ सलोक्य संप्रहृष्ट मुख स्थितौ युधिषि उवाच अच्युताच्युतमा पांडवानां मित्रकर्शन पांडवाना भवाथव्रिता वयं यथा वदसि गोविन्द सर्वं तदुपपद्यते न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः क्षिप्रमेव यथात्वे तत्कार्यं समुपपद्यते अप्रमत्तो जगन्नाथ तथा कुरु नरोत्तमा त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे धर्मकामार्थरहितो रोगार्थ इव दुःखितः न शौरिणा विना विना नाजेयोत्स्यनयोर्लोके कृष्णयोरिति अयञ्च बलिनां श्रेष्ठः श्रीमानपि वृपोदरः युवाभ्यां सहितो वीरः किं न कुर्यान्महाशयाः सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् अन्धम् बलम् जडं प्राहुः प्रणेतव्यम् विचक्षणैः यतो हि निम्नम् भवति नयन्ति हि ततो जलम् यतश्चिद्रं ततश्चापि नयन्ते धीवराजलं तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतं वयमाश्रित्य गोविन्दं यतामहःकार्यसिद्धये एवं प्रज्ञानयबलं क्रियोपायसमन्वितं पुरस्कुर्वीतकार्येषु कृष्णं कार्यार्थसिद्धये एवमेव यदुश्रेष्ठ यावत्कार्यार्थसिद्धये अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयं नयो जयो बलं विक्रमे सिद्धिमेष्यति वैशंपायन उवाच एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधम् प्रति वर्चस्विनाम् ब्राह्मणानाम् स्नातकानाम् परिच्छदम् आच्छाद्यसुहृदाम् वाक्यैर्मनोज्ञैरभिनन्दिताः अमर्षादभितप्तानाम् ज्ञात्यर्धम् मुख्यतेजसाम् रविसोमाग्निवपुषाम् दीप्तमासीत्तदा वपुः हतं मेनेजरासन्धम् दृष्ट्वा भीमपुरोगमौ एककार्यसमुद्यन्तौ कृष्णौ युद्धे पराजितौ ईशौ महात्मानौ सर्वकार्यप्रवर्तिनौ धर्मकामार्थलोकानाम् कार्याणाम् च प्रवर्तकौ कुरुभ्यः प्रस्तितास्तेतु तु मध्येन कुरुजाङ्गळम् रम्यम् पद्मसरो गत्वा कालकूटमतीत्य च गण्डकीम् च महाशोणम् सदानीराम् तथैव च एकपर्वतकेनद्यः क्रमेणैत्या व्रजन्तते उत्तीर्यसरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् अतीत्य जग्मुर्मिथिलां पश्यन्तो विपुलानदीः अतीत्य गङ्गां सोणञ्च त्रयस्ते प्राङ्मुखास्तदा कुसचिरच्छदा जग्मुर्मागधम् क्षेत्रमच्युताः तेशस्वद्गोधनाकीर्णमम्बुमन्तं सुभद्रुमम् गोरधम् गिरिमासाद्य ददृसुर्मागधम् पुरम् इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि कृष्णपाण्डवमागधयात्रायां विंशोऽध्यायः